गतसप्ताहे भवती यद् उक्तवती रात्रि महिकर राम रात्री इति उक्तवती तद् न तु रात्रि न न रात्रि नास्ति रात्री पुनः एकवारम् नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अद्यतनविषयः अस्ति भक्तिः कथं वर्धनीया इति विषयः अस्मि प्रकृतिः सा नित्यनिवृत्ता प्रकृतिः नित्यनिवृत्ता इत्युक्ते अत्र प्रतिसञ्चरधारायां क्रमेण प्रकृतेः क्षयः भवति यथा तत्र कश्चन यागः जायते चेत् यज्ञे घृतम् आहुतिरूपेण दीयते चिन्तनमपि भवति अनन्तरं तत्र अग्निः ज्वलति यज्ञे एवम् इदं जगत एकः अग्निः अस्ति तत्र प्रकृत्या एव इदं जगत शिष्टम् इदं जगत एकः अग्निः वर्तते तत्र घृतस्य क्षयः यथा यागे भवति तथैव अत्र प्रकृतेः क्षयः भवति इति वयं सामान्यतया अवगन्तुं शक्नुमः क्षयः भवति प्रतिशिंशद्वारायाम् इति अवगन्तुं शक्नुमः अत्येव विषयस्य दार्शनिकरीत्या वयं चिन्तयामः चेत् तर्हि पुरुषः इच्छति जगत् भवतु इति अतः जगत् निर्मितं तत्र प्रकृतेः गुणप्रभावेन जगत् निर्मितं वर्तते प्रकृत्याः प्रकृत्याः प्रकृतेः चेष्टया जगत् निर्मितं तर्हि प्रतिसञ्चरधारायां प्रकृति प्रकृतिः किं करोति इति चेत् प्रकृतिः परमपुरुषस्य ध्यानं करोति शक्तिः सा शिवस्य शक्तिः प्रकृतिः परमपुरुषस्य ध्यानं करोति परमपुरुषस्य साधनां करोति परमपुरुषस्य साधनायां प्रकृतिः मग्ना वर्तते जानीमः यदा परमपुरुषस्य भावनां स्वीकुर्मः तदानीं तत्र किं भवति इति चेत् यदा वयं यदि वयम् इच्छामः वा अनिच्छामः परमपुरुषस्य भावनां वयं स्वीकुर्मः चेत् तर्हि तस्य निकटे वयं गच्छामः शनैः शनैः शनैः अस्माकं मनः रूपान्तरितं भवति परमपुरुषं भवति तर्हि इदानीं भक्तिः कथं वर्धनीया यः साधकः अस्ति सः कस्य साधकः इति चेत् परमपुरुषस्य साधकः अस्ति यदा सः साधनां करोति तदानीं क्रमेण तस्य मनः परमपुरुषस्य समीपं गच्छति बहुसमीपं गच्छति तर्हि तत्र किं भवति इति चेत् मनसः एकः अंशः परमपुरुषे रूपान्तरितं भवति यदा मनुष्यस्य मनसः अंशः परमपुरुषे रूपान्तरितं भवति तस्याम् अवस्थायां किं भवति इति चेत् यदा मनसः एकः अंशः परमपुरुषे रूपान्तरितं भवति तदानीम् अवशिष्टं यत् मनः वर्तते तस्मिन् मनसि परमं पुरुषं प्रति प्रीतिः भक्तिः आकर्षणं वर्धते इति एव भवति तत्र क्षणैः क क्रमेण मनः मनसः अंशाः परमपुरुषे रूपान्तरिताः भवन्ति तदानीम् अवशिष्टं यत् मनः यदा प्रतिदिनं यदा वयं साधनां कुर्मः तदानीं परमपुरुषस्य भावनां स्वीकुर्मः तदानीं तत्र क्षणे क्रमेण अस्माकं स्वस्य यः यद् अस्तित्वं वर्तते तस्य क्षयः भवति अस्माकं मनसः अंशाः परमपुरुषे रूपान्तरिता रूपान्तरिताः भवन्ति इति मनुष्यस्य विषयः इदानीं प्रकृतिः परमपुरुषस्य उपासनां करोति अनादिकालात् सा कुर्वती अस्ति ब्रह्मवित् ब्रह्म, ब्रह्म भवति यः ब्रह्माणं जानाति परमपुरुषं परमपुरुषं प्रति यस्य यस्याः प्रीतिभावः वर्तते सः सा स्वयं परमात्मा भवति यतोहि तत्र अन्या सत्ता नास्ति अन्या पृथक् सत्ता नास्ति स्वस्य अस्तित्वं नास्ति तदानीं परमपुरुषे विलीना भवति यदा कश्चन पुरुषः यः अस्ति मनुष्यः यः साधकः नास्ति यदि सः पुरुषः परमपुरुषस्य सम्बन्धे चिन्तयति सः चिन्तयति परमात्मा विराट् अस्ति महान् अस्ति अहम् अदमः नीचः पापी इति चिन्तयति तर्हि न श्रूयते हरि ओम् न श्रूयते भगिनि सरला भगिनी सुचित्राभगिन्या कृते सम्यक् अस्ति भवती पुनः आगच्छति वा अस्तु okay. आगच्छ तर्हि यः पुरुषः साधकः नास्ति सः यदा परमपुरुषस्य यः पुरुषः साधकः नास्ति यदा सः परमपुरुषस्य विषये चिन्तनं करोति परमात्मा विराट् अस्ति महान् अस्ति अहम् अधमः अहं पापी नीचः इति चिन्तयति बहि इतिते सः एव पुरुषः परमात्मानं प्रति तस्मिन् पुरुषे प्रीतिभावः जागरितः भवति यदा जागरितः भवति तदानीं तत्र किं भवति क्षणैः क्षणैः क्षणैः प्रीतिभावः जागरितः भवति तदानीं तत्र किं भवति इति चेत् सः विस्मरति यद् पापी अस्मि अहं नीचः अस्मि अधः अधमः अस्मि इति विस्मरति सः किं चिन्तयति इति चेत् अहं परमात्मनः सन्तानः अस्मि इत्युक्ते सः पूर्वं साधकः नासीत् इदानीं परमपुरुषस्य वि विषये चिन्तनं सः आरब्धवान् तर्हि आदौ सः चिन्तयति अहं नीचः पापी इति चिन्तयति तर्हि परमपुरुषस्य विषये विषये चिन्तनं कृत्वा कृत्वा कृत्वा कृत्वा कृत्वा किं भवति इति चेत् सः विस्मरति सः पापी सः अदमः सः नीचः इति विस्मरति यतोहि मनः परमपुरुषस्य भावनायां मनः विलीनम् अस् अस्ति मनः मग्नः अस्ति अतः स्वस्य विषये चिन्तनस्य अवकाशः नास्ति अहं पापी अहं नीचः इति एवं रीत्या चिन्तन चिन्तनार्थं समयः न लभ्यते प्रकृतेः अपेक्षया मनुष्यः भाग्यवान् अस्ति किमर्थं भाग्यवान् अस्ति इति चेत् यः साधकः अस्ति तस्य जीवने चरमसत्यं किम् इति चेत् परमात्मा एव चरमसत्यं प्रकृतिः या वर्तते तस्याः कृते अपि परमसत्यं परमात्मा वर्तते प्रकृतिः परमपुरुषस्य साधनां करोति साधनायां मग्ना वर्तते महाकाली महाकालस्य साधनां करोति महाशक्ति परमपुरुषस्य साधनां करोति इयं प्रकृति इयं प्रकृति यदा जगत्रूपेण स्वस्य व्यक्तीकरणं करोति तादृशव्यक्तिकरणं जगत् रूपेण व्यक्तिकरणम् एव बहिर्मुखीभावः वर्तते प्रकृ प्रकृतेः बहिर् बहिर्मुखीभावः वर्तते यदा प्र तत्र जगत्रूपेण व्यक्तीकरोति तदानीं यदा परमपुरुषस्य साधनां करोति तदानीं तत्तु अन्तर्मुखीभावः वर्तते बहिर्मुखीभावः क्रमेण तस्य बहिर्मुखिभावस्य क्रमेण क्षयः भवति अन्तर्मुखीभावरूप रु, भावेन रूपान्तरितं भवति एतादृशरूपान्तरणम् एव लीलावैचित्र्यम् इति वयं वदामः ये एतदेव परमपुरुषस्य लीला अतः बहिर्मुखिभावः अन्तर्मुखिभावेन रूपान्तरितं यदा भवति तदर्थमेव वयं वदामः प्रकृतिः सा नित्यनिवृत्ता इति तस्याः क्रमेण क्षयः भवति परन्तु अत्र कः विशेषः इति चेत् प्रकृतिः यथा परमपुरुषः अनादिः अनन्तः तथैव प्रकृतिः अपि अनाद्या अनन्ता वर्तते तस्याः क्षयः भवति परन्तु यतो हि सा अनादि अना अनाद्या वर्तते अतः अनन्तकालपर्यन्तं क्षयः प्रचलति प्रकृतेः क्षयः तस्याः अपेक्षया मनुष्यः तत्र सौभाग्यशाली अस्ति भाग्यवान् अस्ति किमर्थं सह तस्य भाग्यम् अधिकं वर्तते इति चेत् यदा मनुष्यः परमपुरुषस्य साधनां करोति तदानीं किं भवति इति चेत् तस्य सम्पूर्ण अस्तित्वं परमपुरुषे रूपान्तरितं भवति यतोहि मनुष्यः सीमितः अस्ति सीमितः अस्ति अतः तस्य सम्पूर्ण अस्तित्वं परमपुरुषे रूपान्तरितं भवितुमर्हति परन्तु प्रकृतेः विषये तथा नास्ति प्रकृतिः अनाद्य अनन्तरम् अनन्ता वर्तते अतः तस्य रूपान्तरणम् अनन्तकालपर्यन्तं गच्छति तस्याः क्षयः अनन्तकालपर्यन्तं गच्छति अतः तस्याः क्षयः सम्पूर्णतया न भवति परन्तु जीवः सौभाग्यशाली वर्तते यतोहि सः सीमितः वर्तते अतः यदा सः परमपुरुषस्य भावनां गृह्णाति तदानीं किं इति चेत् सः सम्पूर्णतया तस्य अस्तित्वं रूपान्तरितं भवति प्रकृतिः नित्यनिवृत्ता साधकः अपि नित्यनिवृत्तः अस्ति नित्यनिवृत्तः अस्ति परन्तु साधकस्य विषये किं भवति एकस्मिन् दिने तस्य समग्र अस्तित्वं परमात्मनि रूपान्तरितं भवितुमर्हति भवति रूपान्तरितं भवति यदि प्रयासः क्रियते चेत् अवश्यं रूपान्तरितं भवति परन्तु प्रकृत्याः विषये यतोहि सा अनाद्य अनन्ता वर्तते अनादिकालपर्यन्तं तस्याः क्षयः भवति सुखं कुत्र वर्तते सुखं न अल्पे सुखम् अस्ति भूमैव सुखम् अल्पे सीमित सीमितवस्तूनि सुखं नास्ति सुखं कुत्र भवति इति चेत् असीमितवस्तूनि एव सुखं भवति यदा अस्माकं अस्माकं पार्श्वे किञ्चित् धनं वर्तते चेत् सुखं नास्ति इतोपि धनम् आवश्यकम् इतोपि अधिकं धनं लभ्यते चेत् इतोपि अधिकं लभ्यते यावत्पर्यन्तम् अनन्तरूप्यकाणि न सन्ति तावत्पर्यन्तं तत्र सुखं न लभ्यते एवमेव तत्र भोजनस्य विषये अत्र किमपि अस्ति रसगुल्ला एकः वर्तते तदनन्तरम् एकं वयं स्वीकुर्मः तदनन्तरं पुनः इतोपि एकम् इति चिन्तनं भवति इतोपि एकम् इति चिन्तनं भवति इति तत्र त्रयः चतस्रः तिस्रः चतस्रः इत्येवं रीत्या वयं खादामः चेदपि अस्माकं सम्पूर्णतया तृप्तिः न भवति यतोहि यावत्पर्यन्तम् अनन्तरसगुल्लायाः ग्रहणं न भवति तावत्पर्यन्तं सम्पूर्णतया सुखं न लभ्यते तर्हि केवलं परमपुरुषः एव अत्र अस्माकं अस्माकं कृते तादृशसम्पूर्णतृप्तिं दातुं शक्नोति अतः एव किम् उच्यते इति चेत् तत्र यदा बालकाः शिशवः सन्ति तस्या तस्मिन् तस्याम् अवस्थायामेव यदा तेषां साधनायाः दीक्षा भवति तदानीं बहु सम्यक् भवति यतोहि तत्र ग्रहणशक्तिः सम्यक् भवति अपि च सम्पूर्णजीवनं तेषां पुरतः अस्ति अतः ते सम्पूर्णजीवने साधनायाः अभ्यासं कर्तुं शक्नुवन्ति अतः यः बुद्धिमान पुरुषः वर्तते सः किं करोति इति चेत् तत्र यदा न्यूनवयस्कः भवति तदानीमेव साधनायाः आरम्भः भवेत् मनुष्यः तु सुखप्राप्त्यर्थं मनुष्यः सर्वदा प्रयासं करोति इति एव तस्य धर्मः अस्ति खलु सर्वे जीवाः तथैव मनुष्यः अपि तथैव मनुष्यः अपि सुखप्राप्त्यर्थं प्रयासं कुर्वन्ति परन्तु तत्र लौकिककार्याणि यानि सन्ति तेषां करणेन सुखप्राप्तिः न लभ्यते सम्पूर्णतया अतः सम्पूर्णतया सुखप्राप्तिः कदा भवति यदा परमपुरुषः आधारः अस्ति अस्माकं यत्किमपि कार्यमस्ति तत्र परमपुरुषः आधारः अस्ति चेत् तदानीं सुखप्राप्तिः भवति किमर्थं चेत् परमपुरुषः सुखसमुद्रः वर्तते सुखसमुद्रः वर्तते यः पुरुषः तस्य उपासनां करोति तस्य प्राप्त्यर्थं चेष्टां करोति सः एव अधिकः बुद्धिमान् पुरुषः वर्तते एतदेव तस्य प्रधानः प्रधानं कार्यम् इति वक्तुं शक्यते परमपुरुषः इव जीवः अपि नित्यनिवृत्तः किन्तु जीवः सीमितः इतिकृत्वा कृत्वा एकस्मिन् दिने तस्य सम्पूर्ण अस्तित्वं परमात्मनि समाहितं भवति अनन्तसुखसागरे सः निमग्नः भवति इदानीम् अत्र प्रश्नः अस्ति परमात्म परमात्मनः प्राप्त्यर्थं जीवे सामर्थ्यम् अस्ति वा इति वयं परमपुरुषं वयं पश्यामः चेत् परमपुरुषस्य शक्तिः अनन्ता शक्तिः वर्तते अस असीमिता स शक्तिः वर्तते तस्याः तस्य परमपुरुषस्य बुद्धिः बुद्धिः वा भवतु विद्या वा भवतु तस्याः अन्तः नास्ति शक्ति बुद्धिः विद्या अत्र यत्किमपि भवतु तत्र यत्किमपि वस्तु भवतु तत्र तस्य तस्या तस्याः अन्तः नास्ति यतोहि परमपुरुषस्य अपारशक्तिः वर्तते अपारबुद्धिः वर्तते अपारविद्या वर्तते अपारस्मृतिः वर्तते परन्तु मनुष्यं वयं पश्यामः चेत् मनुष्ये तादृश अपारशक्तिः नास्ति अस्माकं सीमितशक्तिः वर्तते सीमितबुद्धिः वर्तते सीमितविद्या वर्तते सीमितस्मृतिः वर्तते सर्वत्र सीमितं खलु यद्यपि को कोऽपि मनुष्यः वदति अहं जानामि अहं तत्र किमपि तत्र कोऽपि कमपि विषयं वयं स्वीकुर्मः तस्मिन् विषये सः वक्तुं शक्नोति अहं सर्वं जानामि इति परन्तु वस्तुतः स सर्वं जानाति वा सर्वं कथं ज्ञातुं शक्नोति तत्रापि तस्य ज्ञानं सीमितमेव खलु यद्यपि कोऽपि पुरुषः निपुणः भवेत् निपुणः अस्ति चेदपि जनाः वदन्ति अहं व्याकरणे निपुणा निपुणः अस्मि इति निपुणः अस्ति चेदपि तत्रापि कश्चन तत्र तत्र किञ्चित् क्षेत्रं भवेत् यत्र तस्य ज्ञानं सम्पूर्णं न भवेत् खलु इति मनुष्ये मनुष्यस्य ज्ञानं सीमितं वर्तते तस्य शक्तिः कर्म कर्तुं शक्तिः अपि सीमितं वर्तते परन्तु परमपुरुषस्य सामर्थ्यं असीमितं वर्तते सर्वेषु क्षेत्रेषु तर्हि कथम् अस्मासु सामर्थ्यं जीवेषु सामर्थ्यं भवेत् परमात्मनः प्राप्त्यर्थम् इति चेत् तत्र अत्र किं ज्ञातव्यम् इति चेत् परमात्मा किमर्थं जगत् निर्मितं यतोहि सः एकः आसीत् एकोऽहं बहुश्यां इति सः सङ्कल्पं कृतवान् एतत् सर्वं परमात्मनः लीला वर्तते खलु तर्हि अस्मासु तादृशसामर्थ्यं नास्ति परमात्मनः प्राप्त्यर्थम् अस्मासु सामर्थ्यं नास्ति परमात्मनः प्राप्तिः केवलं तस्य कृपया एव भवितुमर्हति अहम् अहम् अत्र परमात्मानं अप, परमात्मानं प्राप्नोमि इति अहम् उपविशामि चेदपि यावत्पर्यन्तं तस्य कृपा नास्ति तावत्पर्यन्तम् अस्मासु तादृशसामर्थ्यं न वर्तते इदं जगत् सर्वं परमपुरुषस्य लीला वर्तते तस्य प्रापणं तु परमात्मनः कृपया एव भवितुम् अर्ह अर्हति यतोहि अस्मासु तादृशसामर्थ्यं न वर्तते यदा कोऽपि पुरुषः साधनां करोति परमात्मनः भावं स्वीकरोति तदानीं तत्र किं भवति इति चेत् एतादृशसामर्थ्यं परमात्मनः प्राप्त्यर्थं सामर्थ्यं तस्मिन् तर्हि इदानीं तत्र परमात्मनः लीला किमर्थं कथम् एतादृशलीला इति चेत् परमात्मा एकः आसीत् सः एकोऽहं बहु स्याम् इति सङ्कल्पं कृतवान् यदा सः सङ्कल्पं कृतवा कृतवान् तस्य एव तत्र अनन्त अंशेषु तस्य विभजनं जातम् इति अत्र लीलायाः प्रथमः स्तरः प्रथमं सः एकः आसीत् सः एव इदानीं बहु बहु अभवत् इति प्रथमः स्तरः तर्हि द्वितीयस्तरे किं भवति इति चेत् प्रत्येकम् अंशः यः वर्तते परमात्मनः अंशः जीवरूपेण प्रत्येकस्मिन् अंशे एतादृशप्रवृत्तिः वर्तते यद् ते स्वतः परमात्मानं प्रति तेषां गमनं भवति स्वतः गमनं भवति एतादृशप्रवृत्तिः अपि अस्ति एतदपि परमात्मनः लीला अस्ति तर्हि प्रथमस्तरे स्वस्य विभजनं परमपुरुषः सः कृतवान् तर्हि स्वस्य विभजनं तत्र जीवरूपेण असङ्ख्य असङ्ख्यकजीवरूपेण स्वस्य विभजनं कृतवान् तदनन्तरं द्वितीयस्तरे सः किं कृतवान् इति चेत् तत्र प्रत्येकं जीवे प्रत्य प्रत्येकस्मिन् जीवे एतादृशसामर्थ्यम् आगतं यद् ते परमात्मनः परमात्मानं प्रति ते गन्तुं शक्नुवन्ति यथा परमात्मा अयस्कान्तमणिः वर्तते वयं, सर्व, वयं सर्वे तत्र लोह लोहयुक्ताः अतः तं प्रति धावनं अस्मासु वर्तते खलु अयस्कान्तमणि इत्युक्ते मम माग्नेट् इति चिन्तयन्तु अतः यदि वयं जानीमः वा न जानीमः अस्मासु एतादृशप्रवृत्तिः अस्ति प्रवृत्तिः अस्ति यद्वयं सर्वदा यतोहि वयम् अनन्तं सुखं प्राप्तुमिच्छामः खलु अनन्तं सुखं तु परमात्मा एव अतः अनन्तं सुखं प्राप्तुं वयं प्रयासं कुर्मः इति कृत्वा तस्य दिशि एव वयं गच्छामः खलु एतादृशप्रवृत्तिः जीवे परमात्मानं प्रति धावनप्रवृत्तिः कथं जीवे आगता इति चेत् एतादृशप्रवृत्तिः तु परमात्मनः कृपया एव प्रवृत्तिः आगता तस्य एव इच्छा अभिलाषा वर्तते यत् द्वितीयस्तरे जीवाः तं प्रति धावन्तु इति तस्य अभिलाषा यदि मनुष्यः किमपि कार्यं प्रीतिभावेन करोति तर्हि तर सः सुखं प्राप्नोति तर्हि सुखं प्राप्नोति चेत् सः उत्साहितः भवति यः भक्तः वर्तते यः भक्तः वर्तते सः तु तस्मिन् यदा तीव्रभक्तिः भवति सः परमात्मनः ये गूढविषयाः सन्ति तान् विषयान् अपि सः ज्ञातुं शक्नो शक्नोति यः भक्तः अस्ति यतोहि तस्मिन् भक्ते रागात्मिका भक्तिः वर्तते तर्हि यदा रागात्मिका भक्तिः वर्तते तर्हि तस्मिन् परमात्मानं प्रति अधिकप्रेमभावः वर्तते एतादृशप्रेम प्रेमभावः यदा अधिकः भवति यथा मीराबाय् इति वयं वदामः सर्वदा सा यत् यत्किमपि करोति तत्र सर्वत्र कृष्णमेव पश्यति कृष्णं विहाय अन्यत् किमपि तस्य दृष्टिपतिः न आयाति खलु तर्हि एतादृशसाधकाः ये सन्ति यस् यस्मिन् अथवा येषु रागात्मिका भक्तिः वर्तते भक्तिः वर्तते ते परमात्मनः विषये सर्वं ज्ञातुं शक्नुव शक्नुवन्ति एतादृशसामर्थ्यं तेषु भक्तेषु आयाति इति भक्तिभावः यदा वर्धते तत्र किं भवति इति चेत् अन्ततो गत्वा ते परमात्मनि तेषां लयः भवति परमात्मनि तेषां ते विलीनाः भवन्ति परमात्मनि इत्युक्ते आदौ सृष्टौ तत्र यदा सृष्टिः न जाता तदानीं किमपि नासीत् केवलं परमात्मा एव आसीत् तत्र प्रकृतिः आसीत् परन्तु सा किमपि कर्तुम् अशक्ता आसीत् तर्हि तदानीं तस् तस्याम् अवस्थायां परमपुरुषस्य किमपि कार्यं नासीत् यतो हि सः निर्गुण अवस्थायाम् आसीत् तस्य किमपि कार्यं नासीत् तदनन्तरं सृष्टिः जाता तस्य लीलया सृष्टिः जाता तर्हि लीलायां तत्र स्तरद्वयं वर्तते प्रथमस्तरे स्वस्य विभजनं परमात्मनः विभजनं जीवरूपे अनन्तरं जीवरूपेण अनन्तरं द्वितीयस्तरे तेषु जीवेषु तादृशसामर्थ्यं येन ते परमात्मनं परमात्मनः समीपे ते गन्तुं शक्नुवन्ति एतादृशसमीपगमनं यद्यपि तादृशप्रवृत्तिः अस्ति तस् तस्याः प्रवृत्तेः वर्धनम् अस्माभिः करणीयं परमात्मनः कृपया तदानीं तत्र भक्तिभावः वर्धते भक्तिभावः वर्धते चेत् तदानीम् एकस्मिन् दिने परमात्मनः भावं स्वीकृत्य स्वीकृत्य स्वीकृत्य एक एकस्मिन् दिने अन्ततो गत्वा परमात्मनि ऐक्यं जीवः ऐक्यं प्राप्नोति इति अत्र अद्यतनविषयः अस्ति किमपि वक्तुमिच्छति वा श्रूयते खलु मम ध्वनिः सम्यक् एतादृश एतादृश ऐक्यं केवलं साधनाद्वारा एव भवति वा आं साधनाद्वारा एव भवति ऐक्यम् इत्युक्ते साधना साधना इत्युक्ते साधना अपेक्षिता अनन्तरं ब्रह्मभाव भावः अपि ब्रह्मभावमपि अस्माभिः भावः स्वीकरणीयः इत्युक्ते यत्किमपि वयं कार्यं कुर्मः भक्तिभावः परमात्मनः भावः भवेत् एवं वयं कुर्मः चेत् तदानीम् अन्ततो गत्वा अस्माकम् अस्तित्वं न भवति परमात्मनि अस्माकम् अस्तित्वं अस्माकं तत्र जीवः परमात्मनि विलीनः भवति अन्य अन्यमार्गः नास्ति इत्युक्ते भवत्याः प्रश्नः अन्यमार्गः अस्ति इति प्रश्नः खलु अन्यमार्गः नास्ति अन्यमार्गः नास्ति परमात्मनः भक्तिभावः अपेक्षितः अपेक्षिता वर्तते अनन्तरं साधना वर्तते अतः एव वयं वदामः साधना एव मनुष्यस्य मूलविषयः अस्ति मुख्यविषयः अस्ति एसेन्स् आफ़् लैफ़् इति वक्तुं शक्नुमः इत्युक्ते इदानीं भवती इदानीं किञ्चित् भवती साधनां करोति खलु प्रतिदिनं भवत्याः अनुभवः कः मम अनुभवः तु तादृशं यादृशी रूपांतरणं वा ऐक्यमस्ति तस्मिन् स्तरे तु अहं न अस्मि परं न न ना, तत् अपि जायते हा तत्र किमपि जायते तदहं वक्तुं न शक्नोमि इत्युक्ते ब भगिनि अत्र किं वक्तुम् इच्छामि इति चेत् भवती चिन्तयति रूपान्तरणं नास्ति इति परन्तु अस्ति रूपान्तरणम् अस्ति इत्युक्ते भवत्याः मनसः ये अंशाः सन्ति तेषु अंशेषु तद् भवत्याः मनः यः यद् मनः वर्तते तस्मिन् मने मनसि ये अंशाः सन्ति तेषु अंशेषु तत्र कश्चन अंशः तु तत्र परमात्मनि रूपान्तरितं जातं यतोहि तद् भवत्याः स्वभावे परिवर्तनम् अवश्यं स्यात् खलु यद्यपि इदानीं मम रुचिः कुत्र वर्तते यदा पूर्वमासीत् तादृशं नास्ति इदानीं तस्मिन् विषये मम रुचिः नास्ति इदानीं हा इति अस्ति खलु तत्र तदेव तत्र प्रमाणमस्ति यद् तत्र मनः रूपान्तरितं मनसि कश्चन अंशः रूपान्तरितं जातम् इति तदेव प्रमाणम् यदा भवती रेल्या रेल्याने प्रयासं करोति तदानीं तत्र यद् विण्डो अस्ति गव गव अस्ति इदानीं इट् इस् क्लोस्ड् इदानीं तत्र तत्र रेल्यानं गच्छति यद्यपि ब भवती द्रष्टुं शक्नोति गच्छति इति न भाति यतोहि बहिः न पश्यति भवती तत्र तिष्ठति परन्तु रेल्यानं तु गच्छति परन्तु भवत्याः अनुभवः तादृशं नास्ति यत् रेल्यानं गच्छन् गच्छत् अस्ति परन्तु तु रेल्यानं तु गच्छति एवं यदा भवती साधनां करोति भवत्याः मनसः अंशः रूपान्तरितं जायमानः अस्ति भवती साक्षात् न ज्ञातुं शक्नोति यतोहि प्रायः सम्पूर्णतया रूपान्तरितं न जातम् इति कृत्वा भवती वदति अहं तस्मिन् स्तरे तथा नास्ति वयं सर्वे अपि तत् तस्मिन्नेव स्तरे वयं यदा वयं साधनां कुर्मः तदानीं क्षणैः तत्र रूपान्तरितं जायमानमस्ति तदर्थमेव भवत्याः रुचेः परिवर्तनं जातं खलु Hmm. इति यदा यदा तत्र साधनां भवती अग्रे अपि करोति साधनां करोति तदानीं मनसः अंशाः रूपान्तरिताः अवश्यं भवन्ति तदानीं भवत्याः मनसि इतोपि भक्तिभावः वर्धते यादृशभक्तिभावः पूर्वं नासीत् इदानीं तादृशभक्तिभावः प्रीतिभावः सर्वे जीवानां प्रति प्रीतिभावः एतत् सर्वं वर्धते खलु इति तदेव तत्र प्रमाणमस्ति यद् तत्र रूपान्तरितं मनस् मनः रूपान्तरितं भवति इत्यत्र प्रमाणं तदेव अस्तु अस्तु वा भगिनि धन्यवादः श्रूयते भगिनि श्रूयते अस्तु तर्हि सर्वभी किमपि उक्तवती वा तर्हि इदानीमत्र अस्माकं विषयं प्रति गच्छामः साधनाभ्यासः इति अस्माकं विषयः अस्ति बहु मुख्यः विषयः अस्ति रुचिकरः विषयः अस्ति तर्हि अस्माभिः दृष्टं यत् तत्र परमपुरुषस्य परमपुरुषस्य लीलया सृष्टिः जाता मनुष्यस्य अन्तिमः लक्ष्यः लक्ष्यमस्ति परमात्मा तदर्थम् अस्माभिः साधना करणीया साधनायां क्रमेण प्रथमतया ध्यानं भवति चित्ते तदनन्तरं चित्तं विगृहीतं भवति अहं तत्वे पुनः साधनां कुर्मः तत्वे अहं तत्त्वं विगृहीतं भवति महत्तत्त्वे तदानीं तस्मिन् अवस्थायां विकल्पसमाधिः भवति तदनन्तरं यदा पुनः साधनां महत्तत्वे कुर्मः महत्तत्वं विलीनं भवति जीवे अनन्तरं जीवः विलीनं भवति परमात्मनि तत्र तदेव निर्विकल्पसमाधिः इति यदा जीवितः यदा साधनां कुर्मः तदानीं निर्विकल्पसमाधिः इति अस्माभिः चर्चितं तर्हि मनः तु प्रकृतेः प्रकृत्या एव प्रकृतिपुरुषेण एव मनसि प्रकृतेः प्रभावः तु अस्ति अतः प्रकृतिः सर्वदा चञ्चला वर्तते इति कृत्वा मनसि अपि तादृशप्रभावः अस्ति मनसि चञ्चलता वर्तते सर्वदा वर्तते यावत्पर्यन्तं प्रकृतेः प्रभावः भवति तावत्पर्यन्तं मनसि चञ्चलता अवश्यं भवति चञ्चलतायाः निवारणं कथं कर्तुं शक्यते इति चेत् साधनाद्वारा एव यदा साधनां कुर्मः तदानीं शनैः प्रकृतिप्रभा प्रभावात् मुक्तिं वयम् प्राप्नुमः खलु तदेव अत्र अस्माकं जीवनस्य लक्ष्यं वर्तते तर्हि मनसि या चञ्चलता अस्ति तस्या तस्याः स्थिरीकरणं च अनन्तरम् एकाग्रता द्वयमपि समानमेव मनसः चञ्चलतायाः स्थिरीकरणं तदेव एकाग्रता यावत्पर्यन्तं जीवः प्रकृतेः गुणप्रभावात् प्रभावितः अस्ति वा बा, बाधितः ता अस्ति तावत्पर्यन्तम् एकाग्रता न भवति खलु साधना साधनायाः लक्ष्यम् उद्देश्यम् एकाग्रता अस्माभिः एकाग्रता प्रापणीया इति अतः तदर्थं बाह्यवस्तूनि यानि सन्ति तानि प्रति अस्माकम् आकर्षणं न भवेत् अपि च मनः इतोपि अन्तः अन्तः अन्तः यदा गच्छति साधनाय तदानीम् एकस्मिन् दिने ऐक्यम् अपि भवति परमात्मनि तर्हि यदा तत्र मनः निगृहीतं भवति साधनायां यदा मनः निगृहीतं भवति तदानीं स्वविकल्पसमाधौ यद्यपि एकाग्रता वर्तते परन्तु तदानीमपि मनः वर्तते अस्माकं लक्ष्यं तु स्वविकल्पसमाधिः इति अस्माकं लक्ष्यं तु अन्ततो गत्वा परमात्मनि ऐक्यम् एव अस्माकं लक्ष्यं स्वविकल्पसमाधौ तु मनः वर्तते मनः भूम मनः अस्माकम् अनुमनः भूममनसह तस्य ऐक्यं भवति स्वविकल्पसमाधौ तर्हि यद्यपि एकाग्रता वर्तते तथापि मनः वर्तते तर्हि अस्माकम् अन्ततो गत्वा लक्ष्यम् एकाग्रता इत्येव नास्ति एकाग्रता आवश्यकम् अस्ति परन्तु अन्ततो गत्वा ऐक्यं जीव जीवपरमात्मनोः ऐक्यम् एव अस्माकम् अन्ततो गत्वा लक्ष्यमस्ति तर्हि मनसः एकाग्रता केवलं स्वविकल्पसमाधिः यत्र सोऽहमिति भावः अवशिष्टः अस्ति खलु तर्हि इदानीं किञ्चित् अग्रे गच्छामः प्रकृतेः वर्धमानप्रभावात् सृष्टिः स्थूला भवति यदा प्रकृतिप्रभावः अधिकः भवति तदा सृष्टिः स्थूलतरा भवति अपि तु न्यूनप्रभावेण तु सूक्ष्मा भवति अतः कस्यचित् मनसि महत्तत्वं सूक्ष्मतमम् अस्ति चित्तञ्च स्थूलतमं भवति मुक्त्यर्थं केवलं मनसा एव साधना अथवा साधनाभ्यासः कर्तव्यः स्थूलता अथवा सूक्ष्मता प्रकृतिप्रभावस्य मात्राम् आश्रित्य भवति प्रकृतेः प्रभावस्य न्यूनतया सत्यां न्यूनतायां सत्यां मनः सूक्ष्मं प्रति भवति वस्तूनि यानि भूमचित्तस्य उपरि प्रकृतेः प्रभावस्य उच्चतमक्रमस्य परिमाणेन परिणामेन अस्तित्वं प्राप्नुवन्ति विश्रुतस्य तेषु वस्तुषु साधारणतया मनः विलीनं भवति मनः स्थूलतायाः बाह्यभि बाह्य अभिव्यक्तौ लीनम् चेत् प्रकृतेः अधिकम् प्रभावम् प्राप्नोति जीवात्मनः सम्पूर्णप्रतिबिम्बेन मनुष्यस्य मनः पर्मस्वतन्त्रताम् प्राप्नोति तया सह प्रकृतेः निपातनस्य इच्छा उत्पद्यते इति पूर्वम् दृष्टम् अतः प्रकृतिः माया इति द्वौ भ्रमात्मकौ विरुद्धौ विचारौ निर्मितवती एकौ विचारौ अविद्यामाया विद्यामाया च ये जनाः विद्यामायाः अनुसरणम् अनुसरणार्थं स्वतन्त्रतायाः उपयोगं कुर्वन्ति ते शीघ्रमेव परमपदं प्राप्नुवन्ति यतोहि विद्यामाया मनः सूक्ष्मं प्रति निर्दि निर्देशयति अपि ये अविद्यामायाः श्रयं गृह्णान्ति गृह्णन्ति ते स्वकर्मणा कर्मफलानां प्रतिक्रियाः अनुभवन्ति एव अनेन ते सगुणब्रह्मणः विचारतरङ्गेषु भ्रमन्ति अत्र दत्तमस्ति कदाचित् अस्माकं मनः स्थूल वर्तते कदाचित् सूक्ष्मः वर्तते कथं तद्भवति इत्युक्ते तत्सर्वं जायमानम् अस्ति प्रकृतेः प्रभावात् एव यदा प्रकृतेः प्रभावः अधिकमस्ति तस्मिन् समये मनः स्थूलतरा भवति यदा तु तत् न्यूनं भवति तत्र सूक्ष्मं भवति मनः अतः तत्र स्थूल स्थूलतासूक्ष्मतायाः का कारणं तु प्रकृत्याः प्रभावः एव एतस्मिन् प्रभावात् कथं च मुक्तिं भवेत् इति चिन्तयित्वा तु केवलं तत्र साधनायाः आवश्यकता वर्तते कीदृशः साधना करणीयं मनसा एव साधना करणीयं न तु बाह्यसाधना तत्र बाह्यसाधनायाः किमपि परिणामेन ना, मनः सूक्ष्म भवति इति नास्ति यदा वयम् अग्रे अपि चिन्तितवन्तः अस्माकं गमनस्थलं किम् अस्ति तत् मनसि स्थापयित्वा एव अस्माकं साधनं किं तत्र गन्तुं कीदृशः प्रयासम् आवश्यकं तत् चिन्तनं करणीयं भवति अतः तत्र स्थूलता अस्तु तत्तु प्रकृतेः प्रभावः तस्य उपरि प्रकृतेः न स्यात् उच्चतमक्रमस्य तेषु वस्तुषु एतदा न भवति वस्तूनि यानि भूमा चित्तस्य उपरि प्रकृतेः प्रभावस्य उच्चतमक्रमस्य परिमाणेन परिणामेन अस्तित्वं प्राप्नुवन्ति तेषु वस्तूनि यानि भूमचित्तस्य उपरि प्रकृतेः प्रभावस्य क्रमस्य परिणामेन अस्तित्वं प्राप्नुवन्ति विश्वस्य तेषु वस्तुषु साधारणतया मनः विलीनं भवति किं तत्र यादृशीभावना तादृशं मनः अपि तादृशी न न इत्युक्ते तत्र लो लोके लो यानि वस्तूनि सन्ति तेषु प्रकृतेः बन्धनं भिन्नं भिन्नं भवति खलु इदानीं पाषाणखण्डं वयं पश्यामः चेत् तत्र तु प्रकृतेः प्रभावः अधिकतमं वर्तते खलु जीवस्य इत्युक्ते मनुष्यस्य अपेक्षया पाषाणखण्डे प्रकृतेः प्रभावः अधिकः वर्तते खलु अतः अत्र विश्वस्य तेषु वस्तुषु साधारणतया ते मनः विलीनं भवति इत्युक्ते इत्युक्ते तत्र इत्युक्ते अस्माकं यादृशबन्धनम् अस्ति प्रकृतेः तदनुगुणम् अस्माकं मनः प्रकृ तत्र लोके यानि वस्तूनि सन्ति तानि प्रति आकर्षिताः भवन्ति मनः अस्माकं प्रकृतेः प्रभावः न्यूनः वर्तते चेत् तदानीं तत्र लौकिकवस्तुषु अस्माकम् आकर्षणं न भवति आध्यात्मिकचिन्तने आकर्षणं भवति यदि अस्माकं प्रकृतेः प्रकृतेः प्रभावः अधिकः अस्ति अस्माकं मनसः उपरि तदानीं तत्र लौकिकवस्तुषु एव अस्माकं मनः विलीनं भवति खलु सर्वदा अहं कार्यानस्य विषये चिन्तयामि गृहस्य विषये चिन्तयामि अथवा धनस्य विषये चिन्तयामि खलु अस्तु प्रकृतेः अधिकः चेत् प्रकृतेः प्रभावः अधिकः चेत् मनः बहिर्मुखं भवति मनः यदि प्रकृतेः प्रभावः न्यूनः जायते तदानीं मनः अन्तर्मुखं भवति तादृशमेव मनः स्थूल मनसि अधिकतया स्थूलता वर्तते चेत् तत्तु केवलं प्रकृतेः अधिकप्रभावमेव सूचयति यदा वयं जानीमः जीवात्मनि सम्पूर्णप्रतिबिम्बेन तत्र किमस्ति परमपुरुषस्य सम्पूर्णप्रतिबिम्बेन तत्र मनुष्यस्य मनः निर्मितमस्ति तस्य ते साधनां तु कर्तुम् अग्रगतिं प्राप्तुं तत्र सामर्थ्यम् अस्ति परन्तु तत्र कर्मस्वतन्त्रता अपि भव वर्तते अतः तत्र तया सह प्रकृतेः निपातनस्य इच्छा उत्पत्ति भवति अतः एव तस्य प्रयासः भवति कथञ्चित् प्रकृतेः प्रभावात् मुक्तिं प्राप्तुम् अतः कथञ्चित् कथं भवति तादृशी मुक्तिः कथं प्रकृतेः प्रभावात् बहिः गन्तुम् अग्रे गन्तुं शक्यते तत्र विचार विचारद्वौ अस्ति तदस्ति एकमस्ति अविद्या माया एकमस्ति विद्यामाया विद्यामायाः यदा अनुसरणं कुर्मः तत्र शक्रमाहा। शक्रमाहा। तत्र दत्तमस्ति शीघ्रमेव वयमग्रे गन्तुं शक्नुमः परमपदं प्राप्तुं शक्नुमः किमर्थमित्युक्ते तत्र विद्यामायाः प्रभावेन मनः सूक्ष्मं प्रति एव गच्छति परन्तु ये अविद्यामायाः आश्रयं स्वीकुर्वन्ति तेषां कृते ते तु कर्मफलानां कर्मबन्धने पुनः कर्म कर्मफलं तदृशप्रतिक्रियायां बाधिताः भवन्ति प्रायेण तत्र तस्मिन् स्तरे एव तेषां भवति अतः ते सगुणब्रह्मण यद् जगति अस्ति तत्तु सगुणब्रह्मणः विचारतरङ्गीतु वर्तते अत्र तत्र एव तेषां गमनं भवति पुनः तत्र दत्तं यदस्ति पुनरपि जनमं पुनरपि मरणं तादृशमेव तत्र तेषां भ्रमणं तस्मिन् बाह्यजगति एव भवति तत्र सूक्ष्मतायाः अनुभवं नास्ति अग्रगतिः अपि न भवति तदेव समीचीनं भगिनी इत्युक्ते अत्र अयं परिचयः मुख्यः वर्तते अत्र यः विषयः प्रस्थापितः अस्ति किम् लोके ये जीवाः भवन्ति तेषां सर्वेषां प्रकृतिबन्धनं भिन्नभिन्नस्तरे भवति सर्वेषां बन्धनं समानरीत्या नास्ति खलु अन्येषां जीवानाम् अपेक्षया प्रकृ मनुष्याणां प्रकृतेः वयं पश्यामः तत्र यः मण्डुकः अस्ति अथवा मृगः अस्ति अथवा अन्य सिंहः अस्ति तेषामपेक्षया मनुष्यस्य उपरि प्रकृतेः प्रभावः भिन्नः अस्ति यतोहि मनुष्यः तत्र मनुष्ये मनसः प्राधान्यं वर्तते खलु मनुष्ये मनसः प्राधान्यं वर्तते मनः बहु विकसितं वर्तते अन्येषां जीवानाम् अपेक्षया अन्येषु जीवेषु तु अन्ये जीवाः तु सहजवृत्या तेषां व्यवहारः भवति खलु तेषां तु अन्येषां जीवानां सम्पूर्णतया प्रकृतेहे गुणप्रभावः भवति अतः सहजातवृत्ति अनुगुणमेव ते कार्यं कुर्वन्ति तेषां स्वतंत्र इच्छा नास्ति परन्तु मनुष्येषु वयं पश्यामः चेत् मनुष्येषु सहजवृत्तिः सहजातवृत्तिः अपि वृत्तयः सन्ति परन्तु तेषां न्यूनता भवति यतो तत्र आदौ शैशवावस्थायां सहजातवृत्तयः भवन्ति तदनन्तरं यदा मनुष्यः वर्धते युवकवस्थायां तदानीं मनुष्येषु स्वतन्त्र इच्छा आयाति वयम् अत्र शिशुं वयं पश्यामः आदौ तत्र शिशौ तु स्वतन्त्र इच्छा नास्ति स्वतन्त्र इच्छा नास्ति इतः सः यथा मातापितरौ मातापितरौ यत् यथा वदतः तद् तद्वत् शिशुः व्यवहरति खलु आदौ इत्युक्ते तत्र किम् आहारनिद्राभयम् इति एव अस्ति तत्र आदौ तदनन्तरं यदा यथा तत्र पशुषु वर्तते तथैव अस्ति आदौ तदनन्तरं यदा शिशुः वर्धते तदानीं तत्र मनसः प्राधान्यं भवति तदानीं तत्र स्वतन्त्र इच्छायाः अपि प्रदर्शनं भवति सः अवगच्छति ओहो एतदहम् इच्छामि एतद् न इच्छामि तत्र तादृशभावः आयाति मनुष्येषु खलु तर्हि इदं सामान्यतया मनुष्येषु कीदृशी प्रवृत्तिः भवति इति चेत् लौकिकवस्तुषु प्रवृत्तिः भवति यतोहि अस्माकं पशुजीवनात् अग्रगतिः जाता इति कृत्वा तत्र पशुजीवनस्य प्रभावः इदानीमपि अस्ति इति कृत्वा तत्र आदौ लौकिकवस्तुषु आकर्षणं भवति तस्मात् सुखं प्राप्तुं सः करोति तर्हि चक्रे पतति सुखदुःखचक्रे सः पतति तर्हि तस्मिन् एव सम्पूर्णतया गच्छति यत् तस्मिन् तस्मिन् मनुष्ये अनन्तेषणा वर्तते तादृश अनन् अनन्तेषणायाः पूर्तिः सीमितवस्तुभ्यः सः प्राप्तुं प्रयतते खलु तर्हि एवं करोति चेत् तदानीं मनः इतोपि स्थूलं भवति तर्हि अविद्यामायाः प्रभावः भवति तदानीं खलु तर्हि मनुष्यः प्रधानतया लोकेन सह व्यवहारं रजोगुणेन तमोगुणेन सह करोति तत्त्वगुणेन नास्ति तर्हि यदा सत्त्वगुणेन सः व्यवहारं करोति तदानीं विद्यामायाः प्रभावः भवति तर्हि यदा मनुष्यः विद्यामायाः साहाय्यं स्वीकरोति अर्थात् सत्त्वगुणस्य साहाय्यं स्वीकरोति तदानीं तस्य अग्रगतिः भवति दशवादनात् द्वादशवादनपर्यन्तं गन्तुं तस्य साहाय्यं भवति गुणस्य साहाय्यं भवति तदानीं तस्य अग्रगतिः भवति परमात्मनः समीपं सः गच्छति मनुष्ये एव तादृशस्वतन्त्र इच्छा वर्तते यदा तस्य अन्तःचक्षुः उद्घाटितं भवति तदानीं सः वदति इतः अग्रे पशुजीवनं मास्तु इतः अग्रे अहम् अग्रे गच्छामि इति तस्य तादृशप्रवृत्तिः भवति अग्रगतिं प्राप्तुं तदानीं तत्र विद्यामायाः सहायं भवति यदा मनुष्यस्य अन्तःचक्षुः न उद्घाटितं तदानीं सः पशुजीवने जीवनं यापयति तदानीम् अविद्यामायाः सहायं स्वीकरोति तदानीं पशुवत् सः लौकिकवस्तुषु तस्य आकर्षणं भवति भोगे एव जीवनं यापयति इति तदानीं तत्र तमोगुणस्य रजोगुणस्य प्राधान्यं भवति तर्हि यदा तादृशपशुजीवने व्यवहारं जीवनं यापयति तदानीं तु कर्मफलानि भवन्ति कर्मफलानि भवन्ति संस्काराः भवन्ति तदानीं पुनः अग्रिमजन्म अपि भवति परन्तु यः पुरुषः यस्य पुरुषस्य अन्तः पक्षुः भवति तदानीं सः साधनायाः अभ्यासं करोति तदानीं तत्र किं भवति इति चेत् तस्य संस्कारः नूतनसंस्काराः न उत्पद्यन्ते तर्हि तस्य स्वतन्त्रतया इच्छा न भवति परमात्मनः या इच्छा सा एव इच्छा मम अपि इच्छा तर्हि सः कर्ता भवति सः भोक्ता न भवति नूतनकर्मफलानि सः नूतनकर्मफलानि न सह न क्रियन्ते तर्हि अविद्या विद्यामायाः सहायेन तस्य अग्रगतिः भवति तर्हि मनुष्यः विद्यामायाः सहायं स्वीकरोति चेत् तदानीं तस्य मनः मनः स्थूलं न भवति सूक्ष्मं प्रति गच्छति अविद्यामायाः सहायं स्वीकरोति चेत् मनः स्थूलम् इतोपि स्थूलं भवति तदानीम् अधोगतिः भवति तर्हि तद् योगनिष्ठजीवने वयं किं वदामः इति चेत् वयं तादृशवातावरणं निर्मामः यत्र अस्माकम् अग्रगतिः भवति एतत् सर्वं तु भक्तिभावेन परमपुरुषस्य कृपया एव भवति तदानीं तत्र क्षणैः अस्माकम् अस्तित्वम् अपगच्छति स्वतन्त्र अस्तित्वम् अपगच्छति तर्हि यदा यावत्पर्यन्तम् अहङ्कारः अस्ति अहमेव कर्ता अहमेव भोक्ता इति अहङ्कारः अस्ति तावत्पर्यन्तम् अग्रगतिः न भवति यदा सः अवगच्छति यद् अत्र यत्किमपि अस्मिन् लोके जायमानमस्ति तत्तु परमपुरुषस्य कृपया एव भवति तृणमपि न गच्छति तृणमपि न वहति परमपुरुषस्य कृप कृपां कृपां विना तदानीम् एतादृशभावना यदा आयाति तत्र प्रपत्तिभावः इत्युक्ते तत्र सर्वं जगति यत्किमपि जायमानम् आसीत् तत्तु परमपुरुषस्य कृपया एव जायमानमस्ति इति भावः यदा आयाति तदानीं तत्र अहङ्कारस्य स्थानमेव नास्ति अहं कर्ता अहं भोक्ता इति स्थानमेव नास्ति तदानीं तत्र अग्रगतिः अवश्यमेव भवति प्रकृतेः प्रभावः न्यूनः जायते न्यूनः यदा जायते तदानीं प्रकृतिबन्धनात् मुक्तिः अपि अवश्यमेव भवति इति अस्ति अत्र तर्हि इदानीं किञ्चित् गच्छामः सर्लभग्नि अग्रे पठति माया स्थूल अविद्यादेश मन आकृष्य विलीनयती चया वस्तु कार्य कौती अनया अद्यादूल वस्तुषु मन बद्वा सशीकरण स्थापय साधना अथवा साधनाभ्या प्रकृतिबंधना मुक्ति प्रति कंचन नयति मनः च सूक्ष्म भवति प्रकृतिप्रभावाक्षयः मनः सूक्ष्मतां प्रति नयति शद्र, षडृपवः अष्ट पाशा पाशश्च पुनः मनः न बाधयन्ति च यथा प्रभावस्य न्यूनतायाम् सत्यां कश्चन अविद्या मायाः मायाः अग्रे अस्ति बन्धनात् प्रभावा च मुक्तः भवति तथैव अविद्यामायाः बन्धनात् प्रभावात् च विमोचनेन प्रकृतिप्रभावः न्यूनीभवत् भवेत् इति विपरीतम् अपि सत्यम् एवम् अविद्यामाया कदापि मुक्तिप्राप्त्यर्थम् हाय्यं कर्तुं न शक्नोति यतः केवलं मनः बद्धा जगत् स्थूलवस्तुषु विलीनयति येन मनः अधिकम् स्थूली भवति तदुपरि प्रकृतेः प्रभावः च वर्धते मनस चञ्चलता चञ्चलतायाः स्थिरीकरणं मनस एकाग्रकरणम् मनस सूक्ष्मताकरणम् चेति च इति उपायाः सन्ति प्रकृतिबन्धनात् मुक्तिम् प्राप्तुम् यः अविद्यामायायाम् अनुसरति स एतान् सर्वान् उपायान् सम्पादयितुम् न शक्नोति जगतः स्थूलविषयेषु विलीनम् मनः केवलं अधिकं अधिकम् स्थूलम् भवति यतः चञ्चलता वर्धते एकाग्रता च अशक्यता भवति तादृशम् मनः कदापि मुक्तिम् प्राप्य प्रकृतिबन्धनात् मुक्तं न भव मुक्तं न भवति एवम् एवं, एवं मुक्तिप्राप्त्यर्थम् अविद्या मायाः अनुसन्धानस्य परित्याग अति आवश्यकः अत्र अस्मिन् परिच्छेदे अविद्यामायाः कः प्रभावः भवति इति दत्तमस्ति अविद्यामाया का इति यथा इदानीं भवती उक्तवती यत् लोके यत् वस्तुनि तेषां प्रति यत् आकर्षणम् अस्ति प्रभाव मनसि उपरि अस्ति तत् इति भवती अविद्या माया येन वयं इन्द्रियाणि बहिर्मुखानि सन्ति ते इन्द्रि इन्द्रि मनः इन्द्रियवश् वश् भवति मनः यदि इन्द्रियाणां निग्रहणं न कर्तुं शक्नोति तु मनः इतर उतर धावति च मन चञ्चलं भवति तत् मन मनः कदापि साधना न कर्तुं शक्नोति कारणकी मनः एक का, एकाग्रता न भवति मनस्य मनः मनसः एकाग्रता न आगच्छति यदि मन विषयान् प्रति गच्छति तदानीं ् इति वयं वदामः स्थूलतरं भवति स्थूलतर स्थूलतमं भवति इति यदि स्थूलतमं भवति तदानीं सूक्ष्मं प्रति तस्य ध्यानमेव न भवति जीवः केवलं पशुजीवने इव मनुष्य भूत्वा अपि प् पशुजीवनम् एव प्रचलति इति भवति अवस्था इति अवस्था यद् अस्ति यथा कोऽपि सब्स्टन् इति ड्रग्स् इत, इत्येषां प्रभावम् आगच्छति तत् तदापि तस्य इति बहु आ, क्लेशः भवति ते तेषां निर्वृत्ति पातुं तु अत्र मनः यदि विषयान् भो विषयभोगान् अस्ति तत् कदापि सञ्चर प्रतिसञ्चरधारायाम् अग् अग्रगतिः न पातुं शक्नोति किन्तु अधोगतिः तस्य भवति अग्र गति प्रथमं तमस निर्वृतिः भवेत् तमस विद्यामाया निवृत्तिः कथं भवति यदि वयं प्रयत्नं कुर्मः योगनिष्ठजीवनं प्रचलनम् इति विषयान् वैराग्य इति धा धारणं भवेत् मनसि विषयान् त्यक्तुं विषयान् आकर्षणं यत् तेषां शनैः शनैः तेषां प्रति यत् अस्माकं लग्नम् अस्ति तत् न्यूनीकरणं भवेत् इति यदि भवति तदानीं शनैः शनैः परमात्मनः कृपया अस्माकं मनः अन्तर्मुखं भवति यदि अन्तर्मुखं भवति तु इत्यस्य प्रभावः भावात् न्यूनम कृत्वा वयम् इदानीं रजस् गुणप्रति प्रभावामः रजस्गुणप्रति इति तमस्गुण अपेक्षा इति अधिकम् यदि अस्ति अधिकम तत् तस्य प्रभावेन वयम सेवा कर्तुं शक्नुमः यदि रजस् अस्माकम् आगच्छति सेवा कृत्वा वयं सत्वं प्रति गच्छामः तु अस्ति कथम् अविद्यामायाः विद्यामाया प्रति गच्छामः तु अत्र कथं यदि अविद्यामायाः बन्धनम् अस्ति प्रकृति अपि अस्माभिः बन्धनं करोति प्रकृति बन्धनं तस्मात् निवृत्ति पातुं बहु कष्टकरं भवेत् दुःख तस्य जीवनम् अपि व्यर्थं करोति किन्तु प्रत्येक मनुष्य इदानीं वयं दृष्टवन्तः अस्मिन् प्रत्येकजीवस्य प्रगति परमात्मनः प्रति इति अस्ति किन्तु तत् कथम् इति तस्य कथं मार्ग दर्शनम कथं करणम् इति कथम् आगच्छेत् इति गुरोः गुरो गुरोसत्सङ्ग इति प्रभाव यदि भवति तदा एव आगच्छति इति अस्ति तदानीम् एका मन एक, एक चञ्चलताया चञ्चलमन एकाग्रं भवति यदि एकाग्रं भवति तद् तर... शनैः शनैः सूक्ष्मतया भवति तुित्तं अस्ति तत् चित्त यद्बहिर्मुखम् अस्ति इदानीम् अन्तर्मुखः भवति अन्तर्मुखं यदि भवति तदानीम् अहं पूर्वं दृष्टवन्तः चित्त महत् अहं तत्त्वे विलीनं भवति तदानीम् अहं तत्त्व यदि सात्विकं भवति तदानीं महत्तत्त्वे विलीनं भवति इदानीम् अस्मिन् परिच्छेदे चित्त ता कथं ता बहिः मुख अस्ति तस्य किं प्रभावमस्ति प्रथमं ता चित् अहं तत्त्वे इति विलीनं भवेत् इत्यस्य प्रदर्शनम् अस्ति अस्मिन् परिच्छेदे भगिनी सम्यक् भवति समीचीनं धन्यवादः भगिनी सो अत्र किम् अस्ति इति चेत् मनुष्येषु स्वतन्त्र इच्छा वर्तते यादृश इच्छा अन्येषु जीवेषु नास्ति अतः मनुष्ये सामर्थ्यं वर्तते यद् अहम् अविद्यामायाः चयनं करोमि वा विद्यामायाः चयनं करोमि वा इति अस्मासु सामर्थ्यं वर्तते विद्यामायाः चयनं करो कुर्मः चेत् तर्हि तत्र क्रमेण प्रकृतेः प्रभावात् मुक्तिः अविद्यामायाः चयनं कुर्मः चेत् तत्र बन्धनमेव भवति तर्हि तत्र षड्रिपवः अष्टपाशाः सन्ति तैः वयं बन्धिताः भवामः मनः बन्धितः बन्धितं भवति तर्हि यदा मनः षड् षड् षड्रिपुः अष्टपाशैः षड्रिपुभिः अष्टपाशैः मनः बन्धितं यदा भवति तदानीं तत्र मनः इतोपि स्थूलं भवति खलु तर्हि वयम् अस्मिन् लोके वयं पश्यामः यदा तत्र युद्धाः भवन्ति तत्र अन्यं प्रति गृणा भवति द्वेषं भवति द्वेषः भवति इत्येवं रीत्या वयं द्रष्टुं शक्नुमः यदा अविद्यमायाः प्रधानता भवति तदानीम् एतादृशभावनाः मनसि आगच्छन्ति मनः मनः मनः बन्धितं भवति स्थूलवस्तु प्रति आकर्षितं भवति तर्हि यदा एवं भवति तर्हि अग्रिमजन्मनि कीदृशजन्म भवति इति वयम् ऊहां कर्तुं शक्नुमः कलो. तर्हि यथा वयं चिन्तयामः तद्वत् अस्माकं चित्तं रूपं गृह्णाति यदि स्थूलवस्तु वस्तुनः वस्तु रूपमेव गृह्णाति सर्वदा तदानीं मनः मनसः अधोगति अवश्यमेव भवति यदि चित्तं सूक्ष्मविषयस्य चिन्तनं करोति तदानीं तत्र अग्रगतिः भवति सूक्ष्मं भवति मनः तदानीं तत्र अस्माकं चिन्तनमपि अपि सूक्ष्मविषये चिन्तनं भवति तर्हि अत्र केन सह अस्माकं समयः जायते इति बहु मुख्यविषयः अस्ति खलु कीदृश सङ्गीतं वयं शृण्मः किं वयं पश्यामः अस्माकं कर्णः किं शृणोति वयं कीदृशभोजनं स्वीकुर्मः इति एतत् सर्वं बहु बहु मुख्यम् अस्ति अस्माकं जीवने प्रतिदिने प्रतिक्षणे अतः स्थूलवस्तु वस्तु प्रति आकर्षणं वर्तते चेत् मनः इतोपि स्थूलं भवति बन्धने भवति मनः मनसि चञ्चलता भवति तर्हि अस्मा अस्माकम् अस्माकं हस्ते एतादृशसामर्थ्यं स्वतन्त्र इच्छा इति यन्त्रः यन्त्रं वर्तते तर्हि वयं चयनं कर्तुं शक्नुमः किम् अस्मां किं मम इच्छा कस्मिन् विषये मम इच्छा वर्तते स्थूलविषये वा, वा इति तर्हि सूक्ष्मविषये इच्छा वर्तते चेत् तर्हि मनः इतोपि सूक्ष्मं सूक्ष्मं भवितुमर्हति परन्तु यदि मनः स्थूलविषये आकर्षितम् अस्ति तदानीं मनः इतोपि स्थूलं स्थूलं स्थूलं भवति तर्हि यादृशभावना वर्तते तद्वत् मनः भवति अतः तत्र अतः अतः एव ये शिशवः सन्ति अथवा अस्माकं पुत्राः सन्ति अस्माभिः कीदृशशिक्षणं दातव्यम् इति बहु मुख्य मुख्यविषयः अस्ति यतोहि तत्र बाल्यकालात् एव सम्यक् संस्काराः भवन्ति चेत् तदानीम् अग्रे यदा वयं यदा ते गच्छन्ति तदानीं तत्र तेषाम् अग्रगतिं प्राप्तुम् अवकाशः भवति अतः मनः बहु बहु सेन्सिटिव् वर्तते यदि तत्र अनुचितविषये लग्नं भवति चेत् तदानीम् अधोगतिः भवति इति वयं स्वयं प्रत्यक्षरूपेण अनुभवामः अतः तत् सर्वं स्मर्तव्यम् Okay. तर्हि अग्रे सुचित्रा भगिनी एकं परिचयं स्वीकरोति वा साधनया अन्तर्ज्ञानात्मक अभ्यासेन जीवात्मा प्रकृतिबन्धनात् मुक्तिं तथा च परमपदं प्राप्नोति यत्र यत्र प्रकृतेः स्वभावः अधिकः भवति तत्र तत्र चैतन्यम् भवति चैतन्यं शुद्धज्ञानमस्ति अस्मिन् चैतन्ये बोधिः बुद्धिः च समाविष्टौ अतः प्रकृतेः अधिकप्रभावेन अधिकम् अज्ञानं जायते यतः चैतन्यं वशीभूतं भवति प्रकृतिप्रभावस्य न्यूनतायाः कारणेन स्वाभाविकतया अधिकप्रज्ञा चैतन्यस्य स्पष्टप्रतिबिम्बं भवति यतः प्रकृतेः प्रभावः एव अज्ञानस्य कारणमस्ति साधनाभ्यासः प्रकृतिप्रभावं दूरीकरोति अथवा न्यूनीकरोति तथा च साधनाभ्यासः कश्चन महीयः ज्ञानं चैतन्यस्य महीयः प्रतिबिम्बं च प्रति नयति तत्र दत्तमस्ति यद् जीवात्मा प्रकृतिबन्धनात् मुक्तिं कथं प्राप्नोति तत्तु केवलं साधना कृत्वा एव तदेव अस्ति अन्यनाम अन्तर्ज्ञानात्मकम् अभ्यासः अत्र एतत् न तु बहिः एतत् स्थूलकार्यं नास्ति सूक्ष्ममस्ति साधना करणीयं तदा एव जीवात्मनः जीवात्मा प्रकृतिबन्धनात् मतिं प्राप्नोति तत्र दत्तमस्ति यदा प्रकृतेः प्रभावम् अधिकं भवति चेत् कथं तु जीवात्मा तत्र बन्धने भवति वशीभूतः भवति परन्तु तदपि वयं जानीमः यत् च वर्तते तदेव शुद्धं ज्ञानमस्ति इदानीं तु तत् शुद्धं ज्ञानस्य उपरि एकम् आभरणं निर्मितमस्ति अतः सः चिन्तयति अहं बन्धने अस्मि इति अस्मिन् चैतन्यबोधि बुद्धिः च समाविष्टो स्तः तत्र बोधिः बुद्धिः इत्युक्ते ज्ञानं बोधिः इत्युक्ते किं न जानामि तत्र बुद्धिः इत्युक्ते अस्तु तत्र द्वौ अपि स्तः परन्तु यदा प्रकृतिशक्तेः प्रभावः अधिकमस्ति चेत् तत्र अज्ञानमेव जायते एतादृशबुद्धिः तत्र कार्यं न करोति वयं चैतन्य तत्र नास्ति इति चैतन्यं वशीभूतं भवति प्रकृतिप्रभावस्य न्यूनतया कारणेन अधिकप्रज्ञा अथवा च स्पष्टप्रतिबिम्बमपि चैतन्यस्य स्पष्टप्रतिबिम्बमपि भवति तत्र मनः सूक्ष्मं भवति अतः स्पष्टचैतन्यस्य स्पष्टप्रतिबिम्बं च भवति तस्य मुख्यकारणमस्ति प्रकृतेः प्रभावः न्यूनीकरणं प्रकृतेः प्रभावः आधिक्येन अज्ञानं भवति प्रकृतेः प्रभावस्य न्यूनीकरणं भवति चेत् तत्र चैतन्यस्य स्पष्टप्रतिबिम्बं भवति एतत् सर्वं कथं च भवेत् प्रकृतिप्रभावात् कथं बहिः मुक्तिं प्राप्तुं शक्नुमः इत्युक्ते साधनाभ्यासः एव करणीयः तत्तु प्रथमं तु प्रकृतिप्रभावं न्यूनीकरोति अनन्तरं तत् दूरी अपि करोति तथा च साधनाभ्यासः एव अस्माकं करणीय अस्माकं हस्ते यद् साधनमस्ति तदेव करणीयम् अतः एव तत्र चैतन्यस्य स्पष्टप्रतिबिम्बं प्रति अस्माकं नयति अत्र प्रकृतेः वशीभूतं न भूत्वा सः परमपदं प्रति नयति तदेव भगिनि समीचीनं भगिनि सम्यक् अस्ति तर्हि अत्र मुख्यविषयः अस्ति वयं षड्वादनपर्यन्तं गच्छामः वा द्वादशवादनपर्यन्तं गच्छामः इति एव प्रश्नः अत्र उत्थापितः अस्ति यदि मनुष्ये चैतन्यस्य प्रतिबिम्बः अधिकः वर्तते तदानीं मनः द्वादशवादनं प्रति गच्छति यदि च तत्र चैतन्यस्य प्रतिबिम्बः न्यूनः वर्तते प्रकृतेः प्रभावः अधिकः वर्तते तदानीं षड्वादनपर्यन्तं गच्छामः षड्वादनपर्यन्तं गच्छामः तत्र क्षितितत्वं बहु स्थूलभूतं वर्तते प्रकृतेः बन्धनात् बद्धः वर्तते श्रुतितत्त्वं तत्र अन्यत्र वयं पश्यामः तत्र द्वा द्वादशवादने शुद्धपुरुषः वर्तते यः बद्धः एव नास्ति सः मुक्तः वर्तते तर्हि कुत्र वयं गन्तुम् इच्छामः स्थूलं प्रति सूक्ष्मं प्रति इति अत्र विषयः अस्ति तत्र वयं जानीमः अन्येषु जीवेषु तादृशसामर्थ्यं नास्ति अग्रगतिं प्राप्तुं यतोहि तेषां मनः वर्धितं नास्ति बहुषु जीवेषु महत्तत्त्वमहं तत्त्वं तु सुषुप्त अवस्थायाम् अस्ति यदा ते सङ्घर्षेण इतोपि वर्धितं शरीरं प्राप्नुवन्ति तत्र चैतन्यस्य प्रतिबिम्बः इतोपि वर्धितः भवति मनः अपि इतोपि वर्धितं भवति मनुष्ये वयं पश्यामः चैतन्यस्य प्रतिबिम्बः वर् वर्धितः मनः अपि वर्धितं यदा तत्र रात्रौ जले चन्द्रस्य प्रतिबिम्बः स्पष्टतया दृश्यते यदा जलं शुद्धं भवति जले मलिता मलिनता वर्तते चेत् तत्र चन्द्रस्य प्रतिबिम्बः न दृश्यते खलु एवम् अस्माकं मनः शुद्धं वर्तते चेत् चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया दृश्यते मनः मलिनं वर्तते चेत् तदानीं न दृश्यते अतः अस्माकं हस्ते स्वतन्त्र इच्छा वर्तते कुत्र वयं गन्तुम् इच्छामः इति अन्येषु जीवेषु तादृशसामर्थ्यं नास्ति खलु तर्हि यथा वयं चिन्तयामः तद्वत् अस्माकं भावः भवति मनः भवति अतः तत्र मनुष्येषु सामर्थ्यं वर्तते चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया दृश्येत इति सामर्थ्यं वर्तते तदर्थं वयं प्रयासं कुर्मः चेत् तदानीम् एवं भवति परन्तु यदि अनुचित कर्माणि कुर्मः तदानीं मनः बद्धं भवति प्रकृत्या तदानीं तत्र स्थूलभूतं भवति चित्तं वस्तूनाम् आकारं गृह्णाति अतः तत्र तु चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया न भवति यतोहि मनः मनः व्यस्तं वर्तते अन्येषु विषयेषु खलु अतः अत्र विषयः अस्ति तत्र चैतन्यस्य प्रतिबिम्बः अन्येषु जीवेषु स्पष्टतया नास्ति, अस्ति मनुष्येषु वर्तते यदि वयं प्रयासं कुर्मः मनः शुद्धं भवति चेत् सम्पूर्णतया दृश्यत खलु अतः अस्माकं हस्ते एतादृशसामर्थ्यमस्ति स्वतन्त्रता स्वतन्त्र इच्छा वर्तते अत्र मनुष्यजीवनं तु बहु कष्टेन अस्माभिः प्राप्तम् अस्ति खलु यद् अस्य विषये जनानां ज्ञानमेव नास्ति अतः एव मनुष्यजीवनस्य सम्यक्तया प्रयोगं न कुर्वन्ति खलु अतः अत्र साधना इति साधना इति यः विषयः अस्ति साधनाद्वारा एव प्रकृतिबन्धनात् मुक्तिः भवितुम् अर्हति यदा प्रकृते यदा तत्र प्रकृतेः बन्धनात् मुक्तिं वयं प्राप्नुमः अनन्तरं चैतन्यस्य प्रतिबिम्बः स्पष्टतया जायते तदानीम् अस्माकं विवेकः बोधिज्ञानम् एतत् सर्वम् भोधिज्ञानम् इति आयाति तत्र प्रकृतेः प्रभावः अधिकः जायते चेत् अत्र बुद्धिः भ्रष्टा भवति खलु बुद्धिभ्रष्टा भवति अतः एतत् सर्वम् अस्माकं हस्ते अस्ति वयं किं कस्य चयनं कर्तुमिच्छामः विद्यमायायाः वा अविद्यमायाः वा इति एतत् सर्वम् हस्ते वर्तते इति अत्र विषयः अस्ति कोऽपि संशयः अस्ति वा ना, अश्ण ना, ना, अश्ण ना, ना, ना, अस्तु अत्र स्थगनं हा अस्तु तर्हि अत्र कुर्मः धन्यवादः नमस्कारः धन्यवादः